सर्गम् इलवन् अथामर्षान्निसर्गाच्च जितेन्द्रियतया तया, तया। आच गामाश्रमम् जिष्णोः प्रदीदः पाकशासनः मुनिरूपोऽनुरूपेण सोऽनुनादृशे पुरः द्राकीयसा जड़ा की केश संह पिदस्सी पृथ्तुकन पर्यत इव संध्य विशदभ्रूयुगछन वलितापांगलोचन प्राले यंपलाशाब इव ह्रद आसक्तभरनीकाशैरङ्घैः परिहृशैरपि आद्यो न सद्गृहिण्येव प्रायो यष्ट्यावलम्पितः गूढोऽपि वपुषाराजन्धाम्ना लोकाभिभाविना अंशुमानिव तन्वभ्रपटलच्छन्न विग्रहः जरदिमभि बिभ्राणस्तनुमप्राकृताकृतिः चकाराक्रान्तलक्ष्मीकः ससाध्वसमिवा श्रमम् अभितस्तं प्रधासूनुस्नेहेन परितस्तरे अविज्ञादेपि बन्धौ हि बलात् प्रह्लाददे आदिधेयी मधसाध्य सुतादपचितिं हरिः विश्रम्य विष्टरेणामव्याजहारेदि भारतीं त्वया साधु साधुसमारम्भि नवे वयसि यत्तपः ह्रियदे विषयैः प्रायो वर्षीयानपि माधृशः श्रेयसीं तव सम्प्राप्ता गुणसम्पदमाकृतिः सुलभारम्यदा लोके दुर्लभं हि गुणार्जनं शरदम्बुद्धरच्छाया गत्वर्यो यौवनश्रियः अपातरम्या विषयाः पर्यन्तपरितापि नः अन्तः पर्यवस्थ इदित्याज्ये भवे भव्यो मुक्ता उत्तिषते जनह चिंतवा नी कल्याणी युपस्थिता विरुद्ध कवल सन्देह ये मन युयोत्सु नेव कवचं किमामुक्तमिदं त्वया तपस्विनो हि वसदे केवलाजिनवल्कले प्रपित्सो किञ्च देवोक्तिं निःस्पृहस्य कलेवरे महेषुधि धनुर्भीमं भूदानामनभिद्रुहः भयङ्करप्राणभृदां मृत्योर्भुज इवापरः असिस्तव तपस्थस्य न जयमत्र भवान् नूनमरादिष्वभिलाशुकः क्रोधलक्ष्मक्षमा बन्धक्वायुधं क्वदपोधनाः हक दि बधो दर्क निश्रेयसरी क्रिया दोषिदा सूढ़ पंगयतप मूलम दोष से किंसा देरर्थका पुष तौ हित्वावबोध से दुरचे दुप अभिद्रोहेण भूदानामर्जयन् गत्वरी श्रियः उदन्वानिव सिन्धूनामापदा मेदिपात्रदां या गम्या सत्सहायानां या सुखेदो भयं यदः तासां किं यन्नदुःखाय विपदामिव सम्पदाम् दुरा सदा नरीनुग्रान् धृतेर्विश्वासजन्मनः भोगान् भोगानि वा हेयानध्यास्यापन्न दुर्लभा नान्दरज्ञा श्रियोजादुप्रियैरासां न भूयधे आसक्तास्तास्वमीमूढा वामशीला हि जन्तवः पवादस्तुधिपदे यदशीलेषु चञ्चलाः साधुवृत्तानपि क्षुद्रा विक्षिपन्द्येव सम्पदः कृतवानन्यदेहेषु कर्ता च विधुरं मनः अप्रियैरिव संयोगो विप्रयोगप्रियैः सह शून्यमाकीर्णतामे वितुल्यं व्यसनमुत्सवैः विप्रलम्भोऽपि लाभाय सदि प्रियसमागमे तदा रम्याण्यरम्याणि प्रिया शल्यं तदा सवः तदैकाकी सनिष्ठे नरहितो यदा योक्दप्रमाद्यसि हितादपेदपरितप्यसे यदि नेष्टात्मनः पीडा मा सञ्चि भवदा जने जन्मिनोऽस्य स्थितिं विद्वां लक्ष्मीमिव साधवः विजहीहिरणोत्साहं मातपः साधुनीनशः उच्छेदं जन्म न कर्तुमेधि शान्तस्तपो धन जीयन्तां दुर्जया देहे रिपवश्चक्षुरादयः जितेषु ननु लोकोऽयं परवानर्थसंसिद्धौनी च वृत्तिरपत्रभः अविधेयेन्द्रियपुंसां गौरीवैदिविधेयदां स्वस्त्वया सुखसंवित्तिस्मरणी याधुनादनी इति स्वप्नोपमान् मत्वा कामान्मा गास्तदङ्गदाम् श्रद्धे विप्र ल्रिया विप्रियकारिण सुस्तस्तजनों काम कष्टा शव विवृतेगे भूय प्रवि जह््नुक प्रत्यासि मुक्तिरा भूदायुध व्याहृत्य मरुदाम्पत्या विधि वाचमवस्थिते वचप्रश्रय गम्भीरमधोवाच कपिध्वजः प्रसादरम्यमोजस्विगरीयो लाघवान्विधं सा काङ्क्षमनुपस्कारं विश्वगतिनिराकुलं न्याय्यनिर्णीत निरपेक्षमिवागमे अप्रकम्ब्यतयान्येषा माम्नाय वचनोपमम् अलङ्घ्यत्वा जनैरन्यैः क्षुभीदो दन्वदूर्जितम् औदार्यादर्थ सम्पत्ते शान्तं चित्तमृषेरिव इदमी दृग्गुणोपेदं लब्धावसरसाधनं व्याकुर्याकप्रियं वाक्यं यो वक्ता नेदृगाशयः न ज्ञादं तादयत्नस्य पौ वा पर्यममुष्यदे शासितुं येन मुनिभिस्तुल्यमिच्छसि अविज्ञातप्रबन्धस्य वचो वाचस्पदेरिव व्रजत्यफलदामेव नयदृह इवेहितं श्रेयसोऽप्यस्य देताद वचसो नास्मिभाजनं भाजनं रात्रे रात्रेरिव विपर्ययः क्षत्रियस्तनयः पाण्डोरकम्पार्थो धनञ्जयः स्थितप्रास्तस्य दाया दर्भ्रा दुर्ज्येष्ठस्य शासने कृष्णद्वैपायना देशाद्बिभर्मिव्रतमीदृशं भृशमाराधने यत्तस्वाराध्यस्य मरुत्वदः दुरक्षान् राज्यमात्मा वयं वधूः नीतानि पणतां नून मीदृशी भवितव्यता तेनानुजसहायेन द्रौपद्या च मया विना भृशमायामि यामिनिष्वभिदप्यदे हृतोत्तरीयां प्रसभं सभायामागदह्रियः मर्मच्छिदानो वचस निरतक्षन्नराधयः उपाधत्तसपत्नेषु गुरुसन्निधौ भावमानयने सत्याः सत्यङ्गारमिवान्तकः तामै क्षन्दक्षणम् सभ्य दुःशासनपुरःसराम् अभिस्सायार्कमावृताम् छायामिव महातरोः अयथार्तक्रियारम्भैः अरुेदा दी वा नयने बाष्परिण सोवान्न दशामे गुण प्रियलो हिद्व भंगो दुर्लभा सत्स्ववाच्य स्थिति स्वचान्याकुलिदान्यपि तोयानि तोयराशीनां मनां धार्तराष्ट्रै धार्तराष्ट्रैः सह प्रीतिर्वैरमस्मास्वसूयदा दोषाय कुलचायेव अपवादादभीतस्य समस्य गुणदोषयोः असद्वृत्तेरहो वृत्तं दुर्विभावं विधेरिव द्वंसेदहृदयं सद्य परिभूतस्य मे परैः यद्यमर्शः प्रतीकारं भुजालम्बं न लम्बयेद् अवधूयारिभिर्णीदाम् हरिणैस्तुल्यवृत्तिदाम् अन्योन्यस्यापि जिह्रेम किं पुनः सह वासिनां शक्तिवैकल्यनम्रस्य निःसारत्वाल्लखीयसः जन्मिनो मानहीनस्य तृणस्य च समागतिः अलङ्घ्यं तत्तदुद्वीक्ष्य यद्यदुच्चैर्महीभृदां प्रियदां ज्यायसीं मागान् महदां केन तुङ्गदा तावदाश्रीयदे लक्ष्म्या तावदस्य स्थिरं यशः पुरुषस्तावदेवासौ यावन्मानान्न हीयदे स पुमानार्थवज्जन्मा यस्य नाम्नि पुरस्थिते नान्यामङ्गुलिमभ्येदि संख्यायामुद्यदाङ्गुलिः दुरासदवनज्यायान् गम्यस्तुङ्गोऽपि भूतरः न जहादि महौजस्कं मानप्रांशुमलङ्घ्यदा गुरोन् कुर्वन्ति ते वंश्यानन्वर्थातैर्वसुन्धरा येषां शाम् यशांसिशुभ्राणि ये ह्रेवयन्तीन्दुमण्डलम् उदाहरणमाशीषु प्रथमे ते मनस्विना शुष्के शनिरिवामर्षो यैररादिषुपाद्यते नसुखं सुखम् प्रार्थयेनार्थमुदन्वद्वीधिचञ्चलम् न नित्यदा शनेत्रस्यन्विकृतम् ब्रह्मणः प्रमार्ष्टुमय शक् पङ्गमिच्छेयम् वैधव्यतापितारादिवनितालोचनां बुभिः अपहस्येथ वा सद्भिप्रमादो वास्तु मेधियः अस्तान विहितायासकामं जिह्रेदो वा भवान् वंशलक्ष्मीमनुधृत्य समुच्छेदेन विद्विषाम् निर्वाणमपि मन्ये समन्धरायं जय अजन्मा पुरुषस्तावद्गतासु तृणमे भव यावन्नेषु भिरादत्ते विलुप्तमरिभिर्यशः अनिर्जयेन द्विषदां यस्यामर्ष प्रशाम्यधि पुरुषोक्ति कथं तस्मिन् ब्रूहित्वं हि तपोधन कृतं पुरुषशब्देन जातिमात्रावलम्बिना योऽङ्गीकृतगुणै श्लाघ्यसविस्मयमुदाहृदः ग्रसमानमिवौजांसि सदसा गौरवेरिदम् नाम यस्याभिनन्दन्दिद्विषोऽपि स पुमान् पुमान् यथा प्रतिज्ञम् द्विषतां युधिप्रतिचिकीर्षया ममैवाध्येदि नृपदेस्तृष्यन्निव जलाञ्जलेः स वंशस्यावदातस्य शशाङ्कस्येवलाञ्छनम् कृच्छ्रेषुव्यर्थया यत्र भूयदे भर्तुराज्ञया कथं वा दीयता मर्वाङ्मुनिता धर्मरोधिनी आश्रमानुक्रमपूर्वै स्मर्यते न व्यधिक्रमः जननी दुरकाच मे तिरस्करोदिस्वादन्ध्रियं ज्यायांश्चाचारवान्नपः स्वधर्ममनुरुन्धन्धे नादिक्रममरादिभिः पलायन्ते कृदध्वंसा नाहवान् विच्छिन्नाभ्रविलायं वा विलीये नगमूर्धनि आराध्य वा सहस्राक्षमय शल्यमुद्धरे इत्युक्तवन्तं परिरभ्य दोर्भ्यां तनूजमाविष्कृतदिव्यमूर्तिः अखोपपादमक वा विभूत्यै भवोद्भवा राधनमादिदेश प्रीदेपि नाकिनिमया सह लोकपालैर्लोकत्रयेऽपि विहिता प्रदिवार्यवीर्यः लक्ष्मीं समुत्सुक गीतासिभृशम्परेषामुच्चार्य वाचमिति तेन तिरो बभूवे इति श्रीभारविकृतौ किरातार्जुनीये महाकव्ये इन्द्रसमागमो नामैकादशः सर्गः